श्रीहरये नमः अतद्वादशोऽध्यायः नारथ उवाच ब्रह्मचारी गुरुकुले वसन् दान्तो गुरोर्हितम् आचरन् दासवन्नीचो गुरौ सुदृटौ कृतः सायं प्रातरुपासीतान् कुर्वज्ञर्गसुरोत्तमान् उभे सन्ध्ये च जपन् ब्रह्मसमाहितः चन्दांसि अधीयत गुरो आकुतश्चेत् सुयन्त्रितः उपक्रमे वसाने च चरणौ शिरसानमेत मेखलाजिनवसांसि जडादण्डकमण्डोलोन् बिभ्रूयादुपवीतं दर्पपाणिर्यदोदितं सायं प्रताश्चरेद्भैषं गुरवे तन्निवेदयेत् भुञ्जीतयत्यनुज्ञातो नोसेदुपवसेत् क्वचित् श्रद्दधानो जितेन्द्रियः यावधर्तं व्यवहरेत् सत्रिषु स्त्रीनिर्जितेषु च वर्जयेत् प्रमथाघाताम् अगृहस्थो बृहद्व्रतः इन्द्रियाणि प्रमातीनी हरन्त्यपि यथेर्मनः नपनाभ्यं प्रसादनोन्मर्दन् गुरुस्त्री भेर्युवदिभे कारयेन्नात्मनो युवा नन्दग्निभ्रमता नाम घृतकुम्भसमः पुमान् सुतामपि रघोजज्ञात् अन्यथा यावदर्थकृत् कल्पयित्वात्मना यावत् आभासमितमीश्वरः द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः एतत् सर्वं गृहस्थस्य समाम्ना तं यतेरपि गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः अञ्जनाभ्यञ्जनोन्मर्द स्त्रयबलोकामिषं मधु शृग्गन्तलेपालङ्कारान्स्तजेयोर्यधृतव्रताहान् उषित्वैवं गुरुकुले द्विजो दीद्यावबुध्य च त्रयीं साङ्घोपनिषदं यावत् अर्धं यथा बलं धत्वा वरमनुज्ञातो गुरो कामं गृहं वनं वा प्रविशेत् प्रव्रजेत्तत्र वा वसेत् अग्नौ गुरावात्मनि च सर्वभूतेषु अधोक्षजं भूतैस्वधामपि पश्येत् अप्रविष्टं प्रविष्टवत् एवं विधो ब्रह्मचारी वानप्रस्तो यतिर्गृहे चरन् विदितविज्ञानः परं ब्रह्मादिगच्छति वानप्रस्थस्य वक्ष्यामि नियान्मुनिसम्मतान् यानातिष्ठन्मुनिर्गच्छेत् ऋषिलोकमिकाञ्झसा न कृष्टपच्छमस्नीयात् अकृष्टं चाप्यकालतः अग्निपक्वमतामम्ब अर्कपक्वमुदाहरेत् वन्द्यैश्चरुपुरोढा सान् निर्वपेत् कालचोदितान् लब्धेन वे न पुराणं तु परित्यजेत् अग्न्यर्थमेव शरणम् उटजं वा द्रिकन्धरं श्रयेत हिम वायिवग्ने वर्षार्कातपशाट्स्वयं केसरोकनकस्मश्रु मलानि जटिलो दधत् कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् चरेद्वने द्वादशाब्धान् नष्टौ वा चतुरो मुनिः द्वावेकं वा यथा बुद्धिर्न विभत्येत कृच्छ्रतः यथा कल्पस्वक्रियायं व्याधिभिर्जरया तव आन्वीक्षिक्यां वा विद्यायां कुर्यातनसनाधिकम् आत्मन्यग्नि समारोह्य सन्न्यस्याकममात्मथा कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः को कानि वा यौ निःश्वासान् तेजस्यूष्माणामात्मवान् वासमग्नौ स व्याम् इन्द्रे शिल्पं करावपि पदानि गद्या वयसि उपस्तं प्रजापथो मृत्यौपायुं विसर्गं च यथास्थानं विनिर्दिशेत् दिक्षुश्रोत्रं सनादेन पर्षमध्यात्मनि त्वचं रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् अप्सु प्रचेतसा मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैकवौ परे कर्माण्यत्यात्मना रुद्रे यतहं मम धाक्रिया सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे अप्सूषितिमभो ज्योतिक्षतोपायो नभस्यमुं कूटस्थे तथ व्यक्ते क्षरे च तद् यद्यक्षरधयात्मानं चिन्मात्रम् अवशेषितं ज्ञात्वा द्वयोत विरमेद् धक्तयोनिरिभनलख इति श्रीमद्भागवते महापुराणे सप्तस्कन्ते युदिष्टनारथसंवाते सदाचारनिर्णयो नाम द्वादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथ महाराज की जय